सप्तमोऽध्यायः ज्ञानम् ओ ध्यायेयम् रत्नपीठे सुककलपठितम् शृण्वीम् श्यामलाङ्गी सप्तमोऽध्यायः ज्ञानम् येयम् रत्नपीठे सुकलपठितम् सम्पतीम् श्यामलाङ्गीम् नयतैकान् भ्रिम् तरोजे सधिचकलधराम् बल्लकीम्ैकाम् भ्रिम् तरोजे सचिचकलधराम् वल्लकीम् वादयन्ती कल्लाराबद्धमालाम् नियमितविरसत्तोलिकाम् रक्तवस्त्राम् कल्लाबद्धमालाम् नियमितविरसट्टोलिकाम् रक्तवस्त्राम् शङ्खपात्राम् चित्रकोद्धासि मातङ्गीम् शङ्खपात्राम् मधुरमधुमदाम् चित्रकोद् ॐ ऋषिर्वाच आज्ञप्तास्ते ततो दैत्या स्कण्डमुण्डपुरोगमाः आज्ञप्तास्ते ततो दैत्या स्कण्डमुण्डपुरोगमाः शरुरङ्गबलोपेता जिजुरभ्युच्यतायुधाः शरुरङ्गबलोपेता जिजुरभ्युच्यतायुधाः ददृशुस्ते ततो देवी ददृशत्ते ततो देवी ईषद्भाषाम् व्यवस्थिताम् सिंहस्योपरि शैलेन्द्र शृङ्गे महति काञ्चने सिंहस्योपरि हे धृक्वाताम् समादातु मद्यमम् चक्ररुद्यताः हे धृक्वाताम् समादातु मद्यमम् चक्रुरुद्यताः आकृष्टचा वासिधरात्तथान्येतस्समीपगाः आकृष्टचा पातिधरात्तथान्येदसमीपगाः ततः कोपम् चकारोच्चैरम्बिका तानरीन्वती ततः कोपम् चकारोच्चैरम्बिका तानरीन्वति कोपेन चात्यावदनम् मचीवर्णमभूतदात् कोपेन चात्यावदनम् मचीवर्णमभूतदात् भृगुटे कुटिलात् अस्या ललाडफलगादृकम् भृगुटे कुटिलात् अस्या ललाडफलकादृकम् कालीकरालवदना विनिष्क्रान्तातिपाचिनी काली करालवदना विनिष्क्रान्तातिपाचिनी दिर्वित्रखड्वाङ्गधरा नरमालादिभूषणा दिर्वित्रखड्वाङ्गधरा नरमालादिभूषणा द्वीपि कर्मपदीधाना शुष्कमाम् साति भैरवा द्वीपि सर्मपरीभाना शुष्कमाम् सातिभैरवा अतिविस्तारवदनादिक्ष्वालन बीजना अतिविस्तारवदनादिक्ष्वालन बीजना निहज्ञारक्तनयन ना सा वेगेनाभिपतिता घातयन्ति महासुरान् महा सैन्ये तत्र सुरारेण मभक्षयत तद्बलम् सैन्ये तत्र सुरारेणा मभक्षयत तद्बलम् आस्मिग्राहाङ्कुशग्राहि योधघण्टासमन्वितान् आस्मिग्राहाङ्कुशग्राह्योरघण्टासमन्दितान् समादायैकहस्तेन मुखे तिक्षेपवारनान् समादायैकहस्तेन मुखे तिक्षेपवारनान् तथैव योधम् सुरगैरसंसारथिनाथः तथैव योधम् सुरगैरसंसारथिनाथः निक्षिप्यवक्रे दशने शर्वयम् चति निक्षिप्यवक्रे दशने सर्वयम् गतिभैरवम् एकम् जग्राहके तेषु ग्रीवायामथ चापरम् एकम् जग्राहके तेषु ग्रीवायामथ च पादेनाक्रम्यत इवान्यमुरसान्यमपोथयत पादेनाक्रम्यते इवान्यमुरसान्यमपोथयत तैर्मुक्तानि सशस्त्राणि महास्त्राणि तथा द्रुरैः तैर्मुक्तानि सशस्त्राणि महात्राणि तथा सुरैः मुखेन जग्राहरुषा दशनेर्मथितान्यपि मुखेन जग्राहरुषा दशनेर्मथितान्यपि बलिनाम् तद्बलम् सर्वमथुराणाम् दुरात्मनाम् बलिनाम् तद्बलम् सर्वमथुराणाम् दुरात्मनाम् ममर्जाभक्षयश्चान्यान्याम् चाताडयस्तथा मम जाभक्षयच्छान्यान्याम् चाताडयत्तथा असिनानिहता केचित् केचित् खड्वाङ्गताडिताः असिनानिहता केचित् केचित् खड्वाङ्गताडिताः जग्गुर्विनाशमसुरादन्ताग्राभिहतास्तथा जग्र्विनाशमसुरादन्ताग्राभिहतास्तथा क्षणेन तद्बलम् सर्वमसुराणाम् निपातितम् क्षणेन तद्बलम् सर्वमसुराणाम् निपातितम् दृष्ट्वा चण्डोभिरुज्जातम् कालीमतिदीकनाम् दृष्ट्वा चण्डोभिरुज्जातम् कालीमतिभीकनाम् सरभर्षैर्मः अभीमैर्धीमा क्षीन् ताम् महासुरः सरवर्षैर्मः खादयामासतचक्रैश्च मुण्डः भ्युक्तैष्टहस्ररः खादयामादतक्रैश्च तानि चक्राण्यनेकाणि शिषमाणानि दन्मुखम् तानि चक्राण्यनेकानि शिषमानानि दन्मुखम् बभुर्यथार्कबिम्बानि शुमहोनि खनोदरम् बभुर्यथार्कबिम्बानि ततो जहाता तिरुशा भीमम् भैरवनादिनी ततो जहाता तिरुशा भीमम् भैरवनादिनी काली करालवक्रान्तर् दुर्दर्चदटनोज्ज्वला काली करालवक्रान्तर्दुर्दर्शदटनोज्ज्वला कराल उत्फायश महाबिह्मम् देवी दण्डमधावत उत्फायश महाबिह्मम् देवी दण्डमधावत ग्रिही स्वाचाप्केशेषु शिरस्तेनासिनाक्षिण ग्रिः स्वाताप्केशेषु शिरस्तेनासिनाक्षिण अथ मुण्डोऽभ्यधावत्ताम् दृष्ट्वाचण्डम् निपातितम् वृषा समप्यपातयद्भूमौ वृषा अततशेषम् सतस्तैन्यम् दृष्ट्वातङ्गम् निपातितम् अततशेषम् सतस्तैन्यम् दृष्ट्वातङ्गम् निपादितम् मुण्डम् चसुमहावीर्यम् दिशोभेदे भयातुरम् मुण्डम् चसुमहावीर्यम् दिशोभेदे भयातुरम् स्थिरस्कन्दस्य काली गृहीत्वा मुण्डमेव च प्राहप्रचण्डाक्षहासमित्रमभ्येत्य चण्डिकाम् स्थिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च प्राहप्रचण्डाट्टहासमिश्रमभ्येद्यचण्डिकाम् मया रवात्रो बहृतौ चण्डमुण्डौ महापशु मया रवात्रो बहृतौ चण्डमुण्डौ महापशु युद्धयज्ञे स्वयम् तुङ्गम् निशुम्भम् च हनिष्यसि युद्धयज्ञे स्वयम् तुङ्गम् निशुम्भम् च हनिष्यसि रिषिरुवाच तावानीतौ ततो दृष्ट्वा तण्डमुण्डो महाधुरौ तावानीतौ ततो दृष्ट्वातण्डमुण्डो महाधुरौ उवाचकालीम् कल्याणी ललितम् दण्डिकाभचः उवाचकालीम् कल्याणी ललितम् दण्डिकाभचः यस्मात् कण्डम् चमुण्डम् च यस्मात् कण्डम् चमुण्डम् च चामुंडे तोके ख्यादे भविष्य चामुंडे तोके ख्या भविष्य